देवा ईश्वरो भो वेत्त्वाष्ट्रः पुरोहितो श्रीज्योराणाशीर्षान्यासन् सोमपानगुंसुरापानमन्नादनगुंसप्रत्यक्षं देवेभ्यो भागमवदत्परो क्षमसुरेभ्यः सर्वस्मै वै प्रत्यक्षं भागं वदं यस्मादेव परोक्षं वदं दिनस्य भागमुदितस्तस्मादिन्द्राभे दीग्रङ्गै राष्ट्र ्यावर्तय दी तस्य वज्रपादात्समपानवासे सकलविं कोचन्नादनगुंसजित्तिरिस्तस्याञ्जलिना ब्रह्महत्यामुपागृह्णागुं संवत्सरमपि भस्तं भूतान्यद्धक्रोशन् ब्रह्महन्य सप शिवेमुपासेतस्ये ब्रह्महत्या सा ब्रवेत् परं वृणे खादात् परा भविष्यन्ति मन्ये ततो मा परा भो भमिति पुरा ते संवत्सरादपि रोहादित्यब्रवीत् तस्मात् पुरा संवत्सरात् पृथिदेघादमपि रोहनिपादे पृथज्ञेदं ब्रह्मत्यागे प्रत्यगन्धात् तत्सकृतमिरिणमभवत्तस्मादाहिदाग्निश्रद्धादेव स्वकृतविरिणेनावस्येद्ब्रह्महत्यागे शेषवर्णः सवनस्पते नुपासे तस्यै ब्रह्महत्याधिगृह्णे ते तेभृहन्वरं वृणामहे वृग्नात्परा भविष्यं को मन्यामहे ततोमा परा भूमेत्याव्रश्चनाद्भो भोजागं समुत्तिष्ठा नित्यभ्रवेत्तस्मादाव्रष्टनाद्यक्षाणां भोजागं समुत्तिष्ठं दिवाले पृथग्ं त्रितेदं प्रत्यगृह्णान् स निर्जासोभवस्मा निर्जासस्य नास्य ब्रह्म हत्यादेशवर्णु जलोहितो यो भाव्रश्चनान् निर्जेशधितस्य नास्य मन्यस्य सस्त्रेषु सादमुपासे हस्ये ब्रह्म हत्यादे तृतेदम् दे प्रति ृत्विजा स्त्रियः प्रजां विन्दन्ते काममा विजनिताः सम्भवन्ति प्रत्यगन्धा सा मलवद्वासा अभवत् तस्मान् मलवद्वाससा न संवदे तन सहासे तनास्या अन्नवज्जाद् ब्रह्म हत्यादेशावन्नं प्रतिमुच्यास्ते च खल्वाहुरभ्यञ्जनम् अन्नम भ्यन्दनमेव न प्रतिगृह्यङ्कामभन्यति तिजां मलवद्वासगं सम्भवं तिजस्ततोे तस्यैनो यां पराचीन्तस्यैतमुख्यमखल्भोजास्नाय तस्यामारुको याभ्यन्ते तस्यै दुश्चर्मा याप्रलिखते तस्यै खलदपमालीजान्ते तस्यै काणो यादतो धावस्ये स्या उद्बन्धुको या पर्णेन पिबधितस्य गुण्मादुको या खर्वेण पिबितस्वै खर्वस्ति स्रोरात्रेर्वदम् चेदम् जलना वापिबेन खर्वेण वापात्रेण प्रजादे गोलीथाय ष्टाहत पुत्रो वीं भुं सोममाह रक्तस्मिन्निन्द्र उपहवमये नोपाह्त्रं स जग्नवेसहा सोममपि भक्तस्य स्वाहेन्द्र शत्रुर्वर्धस्वेदवर्तृत्रस्य वृत्रत्व स्वाहेन्द्र ेषत्रस्य वृत्रत्वम् तस्मादिन्द्रात्स प्रजापतिमुपाधात्रुन्मे जने तस्मै वज्रगम् सिक्त्वा प्रागच्छधेतेन जहेजनाय ततावब्रोता भग्नेशो मौमा वै निग्रस्थग्रवेन्मा भेतमितिभ्यामेतमग्ने सौमेयमेकादशकमालम्बोर्णमासे प्रायच्छतामब्रोतामभिसन्दष्टौ वैश्वानशक्नुभायैमिति सयन्द्र आत्मनः शीतरोरावजनयुदक्षेतरोरजोर्जन्म यथेमं शेतरोरजोर्जन्मवेदनैलं शेतरोरौहस्ताभ्याम् जञ्झभ्यमानादग्नेशो भौ निरग्रामतां प्राणापानौ वाजेन तदजहितां पाणो वैदक्षोपानक्रतस्तस्मा जञ्झभ्यमानो ब्रोजान्मयदक्षक्रजो प्राणापानाभेमात्मन्धत्ते सर्वमादुरेति स देवता वृत्रायवाग्भं हवेः पौर्णमासेनवालेन पौर्णमासामाभास्यायां द्याजगन्ध तस्माद्वार्तृघ्ने पौर्णमासृधन्मते वात्र अप्रोधान् द्यावामृ शिवे रामजोर्वये श्रुदय अप्रोधाम्बरं वृणामहा नक्षत्रमिहमसा मे तावब्रवे छिद्रविहिताहमिति यन्दस्मान्नक्षत्रविहितासौ छिद्रविहितम्बरागच्छति सहाभ्यमेव प्रसोदयन्द्रो वृत्रमहन्ते देवा वृत्रगं हत्वारहुजन्नो वहत मिजिता वब्रो धामपदेजसौ वैद्यौ वृत्रे वैद्यो स्नेज्रुवङ्गैरा गौरित्यब्रुवङ्गौ ौर्वा सर्वस्य मित्रमिति सा ब्रमेद्वरं वृणय मय्येव सतो फलेनपि सतो फलेन पुञ्जलदेतद्वा अग्नेस्तेजोजध्वेतत्सोमस्त्योज एवमग्ने सोमयोस्तेजो वेददेतस्येव भवति ब्रह्मवादिनोपदं दि किन्दे ज्येष्ठम् पुत्रम् निरवासाय यदि तस्माः ज्येष्ठम् पुत्रम् धनेन निरवसाय यन्ति इन्द्रं वृत्रं जग्धिवागुं संमृथोऽभिप्रावे मं दश जयतं वै मृथं पौर्णवासेन निर्वाप्यमपश्यत् तन्निरपभक्ते न वै समृथोपाहतजद्वै मृथ पूर्णवासेन निर्वाप्यो भवति वृथदेवतेनोपह धगे इन्द्रो वृत्रगुं हत्वा देवताभिश्चेन्द्रयेण सूजामाज्ञैरमष्टाकपालममाभास्याजामपश्य श्चालो मास्यायां भवेन्द्रं दधि देवताश्च वृत्रं दक्षगिं वृजं वेरुजं पृथिवीमभव्याप्तदोषजो भवान् सप्पतिमुपाथावद्वृत्रं मेधक् भषगिं न े मनव्यारत्तदोषो भो वन्य स प्रजापतिः पशो न ब्रवेदेतदस्मे सङ्गत्पशवो समनगं तत्प्रत्यदुहणत् समनगं तत्साम् यस्य सान्ना यत्त्वं यत्प्रत्यदुहन् तत्त्वम् समनेश प्रत्यथ क्षन्न तु मयश्रय ध्रवेदे तदस्मै श्रुतं कुरुते च ब्रवेत्तदस्मै श्रुतं कुर्वन् वास्मिन् वेर्यं ल्कैर्वान् राक्षसं इन्द्रो भित्रेषामितरोन्न विन्दन्तस्माभ्यः पूर्वे सोमास्याम्बत्यागच्छत् तं देवा अभि समगच्छन्ता मावे ्रोहि देवानाम् वसु समावास्यामावास्य त्वम् ब्रह्मवादनावदम् दिगङ्गेवंसान्नाय्यमिति वैश्वरेवमिति मूराण् तद्देवाभाकथेदमपि समगच्छन्ते तथो खल्वेन्द्रमित्येव ब्रूजादि ब्रह्मवदे तद्भिषज्यन् त्वमपि समगच्छन्तेति ब्रह्मवादिना वदन् सत्त्वे दर्शपोर्णभासौ जय जैनौ सेन्द्रौ जयेन वैमृध पोर्णमासेनर्वाप्यो भवति येन पोर्णवासस्येन्द्र ऐन्द्रन्दध्य मा भास्त्याजा तेन माभास्त्यान्द्राय एवम् विद्वान्दर्शपोर्णभासौ जेन्द्र भवे नौ यजते स्वो स्मारे जानादशीरो भवति कुर्वधके देवारेतामिष्टिममस्य नाज्ञा वैष्ठममेकादशगालगुम् शरुकुम् सरस्वते शरुन्ताम्बोर्णभासम् सघृष्ठा निरवपन्ततो देवः अभवन् परासुराजो भ्रातरुज्यात्सभोर्णभासम् सघृस्थामिष्टिमनुवभेसे नैव वज्रं भ्रातृ हृत्याः नावेश्वरेण देवताः स्तयज्ञञ्च वृन्दय स्वनान् भारस्वदाभ्यायावयवात्सर्वं वृन्दयजेदाभ्यादृज वा नमाभ्यादृजन्नाप्याय जय सा गम्भस्थाय जतशुकामो यस्मै वा अल्पे नाहरं दिनात्मना नृप्य दिनान्यस्मै ददाति यस्मै महदा तृप्यध्यात्मना ददा स्मै महता पोर्णगम्भदौ जं धैनमिन्द्रः प्रचदायुपात्रेण माहुमानसहरिम्बरं भवत्योर्ग्वम्बरवोर्गसमगोर्जैवा स्मागोर्जम्बसो नेर्महेन्द्रयो वै गतश्रेयः शुश्रुमान् ग्रामणे राजन्यस्त्रेतां महेन्द्रदेवतायो वै स्वान् ेवतामधिगजते प्रस्वादे प्राप्नोतिपाति संवत्सरमिन्द्रं गं व्रदन्नाथस्मैश्च पुराडाशमष्टागपालम् गर्वमे संवत्सरमेवैनम् वृत्रम् जग् समग्नर्वतमधर्वतमालम्भय ततोऽधिकामै रजयता सोमजा जय सन्न वेतनागतं पजो यो समया जय समया जय सन्नजयरिमोषदेव सोऽषते समयाज्येव वै पयः सान्नाजम् वयसेव भज आत्मन्धेवारेतं व्रजजा पशफिरथयति भद्धयत्य पुरस्ताः चन्द्रमा ण्डुरान् विभजेधात्रे पुरोष्टाङ्गुरुजास्तान्द्राजं विष्णवेष्टाय चेवास्मे प्रजां प्रजनयदवृद्धामिन्द्र यज्ञो वै विष्णवः पशव शिबिरज्ञ पूर्वजा सम्प्रति गेतोत्तरजा संवत्कुरु लोकमेव भोर्वयाभिजगजमनश्च लोकमुत्तरया भूयसौ यज्ञकृतोनुमैद्येषाभिनामेष्टजमध्यजानु चन्द्रमा अभ्यजेत्यस्मिन्नेवस्मै लोकेऽध्वं भवति दाक्षायण यज्ञेन सुवर्गकामोऽलेन भोर्णमासे सन्नदे मेत्रावरुण्यामिक्षयामाभास्यायाङ्ग्लेन भोर्णमासे मय्येव स्तेषा मेलमध्यमासंप्रसस्तेषा मेत्रावरुणे वशामाभास्यायामनो मन्ध्या वेदिमेत्सा नोहमे ेव संविदयद्य देवैरेव सुत्या सम्पादय द से नैवै सोमं पिबदयन्मेन्द्रावरुण्याम्यक्षमाभास्याधान्यजते देवासौ देवानाम्बन्ध्यासो देवैश यदस्तसाक्षान्मानेश देवानभ्यारोह जिगदेशान् यज्ञमभ्यारोहति यथा खगुवेशानभ्यारोढः यज्ञपविद्ध्या कामहेतेन यज्ञेन गजेदक्षुरमविर्ह्येण यज्ञस्था जुण्यो भा भवति प्रवामेयते तस्यैतद्व्रतम् नानृतम् मदेन्न मातुम् समश्नेयान्नस्त्रियमुपेयान्नास्य पल्पोलनेन वासः पल्पोलय दुरेदभ्ये वा श मे देवरथो जब्दर्शवोऽन्न भासौ जोदर्शवोऽन्न भासा विश्वासो मे नगदेव स्पष्टदेवावसानेव देवानामस्येतानि वारस्य यद्दर्शवोऽन्न वासौ जेवं विद्वान् दर्शवोन्न वासौ जयन्दा ैव संवत्सरस्य कृजदथा चेदेव चक्षुषे दर्शवोर्नमासौ जेवं विद्वान् पोर्णवासौ जदेवं विद्वान् दर्शकोर्णमासौ गजते ज एव देवजानंसास्तगुं समारोहत्ये दो वै देवाना गुंहरि गद्दर्शपोर्णवासौ जदेवं विद्वान्दर्शपोर्णमासौ जजते यामेव देवाना गुं हरिताभ्यामेवैभ्य हृजं महत्ये तद्वै देवानाभास्यै यद्वर्षपोर्णभासौ जेवं विद्वान्दर्शपोर्ण साक्षादेव देवानामास्त्य हविर्धान्यो दर्शवोर्नमासजां पातरग् गजते दर्शवोर्नमासाहर हर हविर्धान नागुंसो देवं विद्वान् दर्शवोर्नमासो गजदे हविर्धान्यस्मै सर्वमेवास्य भवति देवाहर् निजन्नाविन्दं दे दर्शवो ौर्णमासावपुनन्तौ वा एतौ भूतौ मेध्यौ यद्वश पौर्णमासौ जदेवं विद्वां दर्शपौर्णमासौ भूतावै वैनौ ्राजाक्ष्म आ रद्राज लक्ष्मस्य जन्म यत्त्वापि जानभक्तत्वा लक्ष्मस्ये ध्यायाभ्यामविन्दत्तयेन्यस्तक्ष्माणां जन्मवेदनेन मेतेन्दं दशेव ने ब्रोधाम्बरं वृणवहा तस्माभास्यायां च पौन्महास्याञ्च देवायुज्यं ते देहि देवानाम् मनुष्या भवन्ति य एवम् वेदभूता य क्षुधमर्घ्न सद्यो मनुष्या अर्धमासे देवासि पितरः संवत्सरेव नस्मदजस्तस्मार हर हर्मनुष्याचनमिच्छन्ते अर्धमासे देवायुध्यम् दे मासि पितृद्धः दृजते संवत्सरेव नस्मतजः फलम् य एवम् वेद हन्ति देवा वैनार्चनयजश्रयं ददेशामन्नेवाश्रयन् दहिङ्करो दिशामैवा गर्हिङ्करो जयत्रैव देवा अश्रयन्तैनान् प्रजुं देहिङ्करो दिवाशदेवैषजो गोहिङ्करो प्रजादेव तद्यजमानसृजते त्रिः प्रथमामन्वाह तृणुत्तमान् यज्ञस्यैव तद्भज सन्नह्यत्यप्रसृगुंसाय सन्तः प्राणानामन्वाद्यस्य न्दरे वा अयं लोक जिममेव लोकमभिजय नेत्र रिम गृह्णादित्रय जिमे लोकाजिमानेव लोकानभिजय दिवालह देवन्वाहवालहतो लोकमभिजगद् प्रभो वाजागत्यनिरुपत्यामन्वायज्ञो वै प्रजापतिर्यज्ञमेव प्रजापतिमारभत प्रभो वाजादित्यन्वाः वै वाजोऽन्नमेवावरुन्ध प्रभो वाचायित्यन्वाहतस्मा प्राचीनकुण्डेतोधीतजगित्याहतस्माचे प्रजा प्रभो वा नित्यन्वा हमासाभिजा अर्धमासा अभिज्व ेव यज्ञस्य प्रगन्धामावरुन्धाम सर्वमानुरेटप्राणेन सर्वमाजुरेत्नाभेव भ्रातृजम् कुरु चर्धर्चौ सन्दधास्यामिधान्येवम् वेदा रत्नाभेव भ्रातृजम् कुरु धर्षैर्वा निर्मिता यत्सामिधान्यस्ताय संयुक्तास्य प्रसजा कुशफर्गजमानस्य संयुक्ता अवरुद्धाः सर्वाभाषन्दुःक्रे ो वा देशजो सामाग्नगिच्च हरसन्दरशेषामित्तिरङ्गस्येषवर्णो यमो विमलजो हामेत्यग्न आयाशवेदयत्यस्मिन् लोके सुवेद्यमित्यमस्मिन् लोक आदित्यन्दवाजमौ लोकावसाम्यदाङ्गे साम्यो स्माजमौ लोकौ जैवं वेद श्चाक्षराणि संवत्सरस्य रात्रश्च ब्रह्मवाद्यमवस्मिन् दारावादत्सो मम जन यत्परुक्षेपोऽभ्यवदत् सो न्यमजनगज्रवेद्य ग्निमचितो नाहमिद सा मिथ नीनमेवाहं वर्णं वेदेत्यव्यमनोक्षने सामन् हस्तन्दा समिद्भिरङ्गा हसामिथनेष्मज्यो निर्जनय श्रियस्ते नयतृश्रियस्ते नयद्गायत्रिश्रियस्ते नयत्सामिथं वधे मङ्गले नस्वदेस्तेनसेन्द्रास्तेन मिथुना अग्निर्देवाना ृणेम यद्यभि देवाभवन् विदुषां दोदं वृणेमह मे वेदं यजमानमेव वेदजापवज समिद्धो अग्नाहु वेत्याहवैदं वरितधाकन्धाय नोर्धमभ्यादध्यायथा बहिः परिधेन्द्रातृगेव त्रयो वा अग्नयोह नो देवानाः जवाहनम् नृणाम् सहरक्षा असुराणान्तरेतर्यासकम् सन् दे माम्बरिश्च देवामित वृणेभो हविजवाहनमित्याहज देवदेवानान्तम् वृणेदहाशयम् वृणे देवन्धरेवनेतथो सन्दत्ते परस्ता दर्वा च वृणेते तस्मात् परस्ता दर्वान् च मनुष्यान् वितरानु देवदेवानान्दम् वृणेद आशयम् वृणे देवम् च देवनेतथ सन्दत्ये परस्ता दर्वा च वृणेते तस्मात् परस्ता दर्वान् च मनुष्यान् ग्ने महागम् असे जाहमहानश्चणे जाहं ब्राह्मणश्च भारते जाहयषहि देवजं भरत देवे ध्वगिद्याहदेवा च तमेन्दगाहृत्येव त्याहमिप्रा ये गच्छश्रुवायुंसः कविसस्तगत्याह गमज ये गच्छश्रुवायुं स ब्रह्मसगंस्रह्मसगंसेन सदाहु प्रणेर्जज्ञानामित्याह प्रणेर्यज्ञानागमरसेन त्याह नैदं कश्चन तरदितोगृह्येषत्रं जहो देवानामित्याह जुहोर्षेष देवानां समसौ भ्याजमस्नेदनयनावत्याहमानमेव देवानि वहत्सराजयित्याग्निमेव सोऽसगं सितो देवेभ्य उजं महत्यग्निर्हो नेत्याग्निर्वेद देवाना गुम्होताय देव देवाना गुम्होता तं वृणेदे स्म वयमिद्याः आत्मानमेव सत्त्वं गमयति सा सु देवदेव्याः सुषमेवेतामसाः स्ते द्रौजाज ्रमायुगस्या द्रुजदेवत्यानपदे मध्वर्गोस्तु समास्ये वैदेन मध्वयजदेव नमश्चाम नमश्चाने गजामज्ञया नित्याहतरा नमस्यादेवायज्ञा देवता देवतद्यथा भागम् गजते ृजाननु ब्रोजाद्राजन्यस्य कृजो वा अन्यैराजन्याः पुरुषाम् वैश्योस्ताने वा स्वानुकरोपञ्च दशानुजाद्राजन्यस्त पञ्च दशो वैराजन्यस्व नैव वैद्यस्तुभा वध्यानिन्द्रजं वै दृष्टुम् खलु वैराजन्यो यजत तृष्टुभैवा स्मा ै गायत्रे ब्रह्मवर्चसमेव सप्तदशो वै वैश्वस्व देवस्त्वमेव जगद्या जागदा वै पशवः पशु कामः खलु वै वैश्व ्रोयात् प्रतिष्ठाकामस्यैकविगुंस स्तोमानां प्रतिष्ठात् प्रतिक्षे चतुर्वकं शतमनब्रोयात् ब्रह्मवर्त सकामश्चक्षरागायत्रे गायत्रे ब्रह्मवर्तसं गायत्रिदैवास्मेः ब्रह्मवर्त समवरुन्ध त्रिगुं शतमनब्रोजादन्नकामश्च त्रिगुं सदक्षरा विराटन्नं ृकं सदमनं ब्रोजात् प्रतिष्ठा कामस्य भातृकं सदक्षरा दष्टगनष्टक्षन्दसा प्रतिष्ठा प्रतिष्ठत्ये क्षत्रिकं समनं पशुकामस्य क्षत्रिकं सदक्षरा बृहदेवालहदा पशव बृहत्यैवास्मे पशुवनवरुन्धे चतश्चत्वारिकं सदमनं प्रोजादिन्द्रियकामस्य चतश्चत्वारिकं सदक्षरात् दृष्टगन्द्रियं द्रष्टप्थैवा स्मादिन्द्रियमवन्धे ष्टाचत्वारिकम् शतमनुब्रूयात् पशुगामस्याष्टाचत्वारिकम् सगदि पशवो जगत्यैवास्मे पशोनवरुन्धय सर्वाणि छन्दा कश्चन ब्रूयाद्बहुजा जनः सर्वाणि वारे तस्य निवेदं मनुष्याणां प्राचीनावेदं पितॄणामुपवेदं देवानामुपुजयते देवलक्ष्मेव तद्गुरु ते तिष्ठन् नन्वा हतिष्ठन्नश्रुतदरहं वदति तिष्ठन् नन्वाह सुवर्गस्य लोकस्याभिजित्या आसेनो जयत्यस्मिन्नेव लोके प्रतिष्ठ मन्वाः सुरं तज्जन्मन्त्रं मानुषं सदेव वागं सोऽभै पुराहोतारो भवन्तस्माद्विधृता अध्वानो भो पन्नपन्थानः समरुक्षण्णं दर्वेद्यन्यः पादोपदि बहिर्वेद्यन्योऽ भूतं चैव भविष्यच्चावरुन्धे च परिमितं चैव परिमितं चावरुन्धे चण्यागिश्चैव पशोनारण्याविश्च वरुन्ध देव लोकं चैव मनुष्य लोकं चाभिजयति देवा वै सामिथेनीर्घनोच्छं नान्वश्यन् स प्रजापतिस्तोष्णेवाघारमाघारयत्ततो वै देवायज्ञमन्वपश्य गत्तोष्णेवाघारमाघारयति यज्ञस्यानुख्यात्या प्रजदा पशुभर यदेवं वेदयते गजाघारजयतां प्रेमे गाद्यद्वाभ्यां द्वे प्रेमे गाद्यत्य सिभिरदि तद्रे चेन्मनसाघारयनसाख्यनाप्तमाप्तदे चमाघारयत्यछम्बकारं वाच्यमनश्चार्तिजयतामहं दे देवेभ्यो हृजं वहामे वागब्रवेदहं देवेभ्य जयमनस्तौ प्रजाप नित्यब्रवेत्तस्मासा प्रजापदयजुलिम प्रजापदराध्यमन्त्रयो वै प्राणाः प्राणामेव दक्षिणार्जं द्वय जि मे लोकाधिमानेव लोकानभिजगदि त्रिलुक्तर्जं द्वयो वैदेव जानाः पन्थानस्ताने वाजगदि त्रिलपवाजयत्रयो वैदेव लोकादेव लोकाने वाजगति द्वादश सम्पद्यन्ते द्वादशमासाः संवत्सरः संवत्सरमेव प्रेणार्चस संवत्सरमेव स्म उपदधादसवर्गस्य लोकस्य समष्ट्या आ माघारयति रहि स्वर्गो लोकस्वर्गमेवास्मै लोकं मृोचय त्रिजुमाघारयति प्राणस्सन्तमाघारयति प्राणानामन्नाद्यस्य सन्तत्याग्रतामवहे लङ्गामदेत प्रमालुकस्यादि जिम्भन्दस्याघारयेत् प्राणमेवास्मा जिम्भन्नयति ताजप्रमेगते शयोवादे तज्जैनस्य यदाघार ुमातुं समहत्यात्मन्येव लग्नस्तशिरः प्रतिदधाद्यवानाहासीव्यणान्तो प्रजापदं प्रश्नमैतालं स प्रजापदं ब्राह्मणमं प्रवेदे त्यब्रोहेत्याश्रावं देवाश्रहदेवावतं प्रवेदज्ञर्देवो हो दैर्जगदेव ृणे दततो देव अभवन्परा सुराजस्यैवं विदुषप्रबलं प्रवृणते भवत्यात्मना परा सभ्रातृविदो भवति यद् प्रश्नमे जातां रां भ्रोजां भमायाध्याहात्मनेऽध्याहज्रां फणं वराहात्मानं वराह स्मा आदुष्ट आयुद्ध अग्न आद्याय स्वसन्तेव देहे न मुदुत्तमम् प्रणोदे ज्ञानादिवोऽ अग्ना विष्णो इमम् एव रुणदत्वायाम्युदितम् चित्रम् अपान्नपादा ह्यस्थानुपस्थन्तिमोऽर्ध्वो विद्युतम् वसानः ेष्ठम् महिमानम् वहन्तेरन् वह्णाः पर्यन्त्य जेः समन्यायम् भयम् जन्याः समानमोर्वह्न जः कृणन्ति तमोऽशुचु चो देतिवायुम् समपान्नपादम् परितस्थुरावः तमस्मे रायुवदोयुवानम् मर्मज्यमानाः परिजन् जापः स शुक्रेण शिक्वना रेव्यर्देदाय निघ्नो धृतनिर्मिगप्सु इन्द्रावरुणयो रहगम् सम्राजोरभावृणे त्वाृणात ईदृशे इन्द्रावरुणाय ममध्वराय नो विषयजनाय महि शर्म यच्छतम् दीर्घप्रयज्युमतयो वश्यति भयञ्जरे मरुतना प्रवाहवा त्वन्नो अग्ने वरुणस्य बिन्दान् देवस्य हेडो वजाेष्ठाः ज्येष्ठो बन्धिनमश्वासु जानो विश्वान्वेषाकम् शक्रमभ्यस्मते स त्वन्नो अग्ने ममो भवने ज्येष्ठो अस्या उषसो ज्युष्ठो अपलक्षणो वरुण कुन्दलाणो वेहि मृडेकलुम् सुहवो न देधि कार्भायमन्यर्भरतस्य शृङ्गे विजत्सूर्यो न रोचते बृहद्भाः अभ्यजः पूर्वम् मृतरा सुतस्थौ धीरागदैव्यो अतिशिवो नः प्रथे दक्षिप्रथयि गर्मिमन्मभुवो यथा वन्द्यो नोहवेषु धन्वन्निव सत्त्वमग्ने प्रतीकेण प्रत्योषया तु धान्यः मुरुक्षदेषु सर्वम् सप्रतीकम् सदृशज्ञः सञ्चमविद्वागुम् स्वविदुष्टरघुम् समेमा सज क्षद्विश्वाजुनानि विद्वान् प्रहरुजमग्निरमृतेषु वोचत् रघुम्भोमुचे विमेषजन्मा विन भो